श्रीमन्महाभारतं सभापर्वणि शिशुपालवधपर्वणि शिशुपालवाक्ये एकचत्वारिंशो अध्यायः शिशुपालौ उवाच विभीषिकाभिर्बह्वीभिर्भीषयन् सर्वपार्थिवान् नव्यपत्रपसेकस्माद्वृद्धः सन् कुलपांसनः युक्तमेतत् तृतीयायां प्रकृतौ वर्तता त्वया वक्तुं धर्मादपेतार्थं हि सर्वकुरुतमः नावि नाविनौरिव सम्बद्धा यथान्धो बान्धमन्वियात् तथाभूता हि कौरव्या येषाम् भीष्म त्वमग्रणीः पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः त्वया कीर्तयतास्माकम् भूयः प्रव्यथितम् मनः अवलिप्तस्य मूर्खस्य केशवम् स्तोतुमिच्छतः कथम् भीष्म जिह्वा शतधेयम् विदीर्यते यत्र कुत्सा प्रयोक्तव्या भीष्मबालतरैर्नरैः तमिमम् ज्ञानवृद्धः सङ्गोपम् संस्तोतुमिच्छसि